ध्यायामो ध्यायामोदवलावकुण्टनवधीम् तेजोमयीम् नैष्टिकीम् स्निग्धापाङ्गविलोकिनीम् भगवधीम् मन्थस्मितश्रीमुहीम् वात्सल्यामृतवर्षिणीम् सुमधुरम् सङ्कीर्तनालापिनीम् श्यामाङ्गीम् मधुसिक्तसूक्तिम् अमृतानन्दात्मिकाम् ईश्वरी ओम् अमृतेश्वर्ये नमः ओम् अमृतेश्वर्ये नमः ओम् अमृतेश्वर्ये नमः ॐ गणाना आम् त्वा गणपतिकम् भवामहे कविम् कवीनामुभमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन्होधिभिः सीदसादनम् ओम् श्रीमहागणपतये नमः प्रणो देवी सरस्वती वाजेभिर्वाचिनीवती धीनामविद्र्यवतु वाग्देव्यै नमः Does anybody want to do the first Anuvaka, first paragraph? Yeah, sure. Okay. Mahesh, you want to go first? Yeah, I can do that. Okay. Om Namo Bhagavate Rudraya Namaste Rudra Manyava Uttota Ishavenamaha नमस्तेऽस्तु धन्वने बाहुभ्या मुतते नमः यातकिशुः शिवतमा शिवम् बभूवते धनुः शिवा यातवतया नो रुद्रमृडय या ते रुद्रशिवातनूरघोरापापकाशिनी तया नस्तनुभाशन्तमया गिरिशन्ताभिचाकशीः यामिशुम् गिरिशन्त हस्ते बिभर्ष्यस्तवे शिवाम् गिरिद्रताम् कुरु माहिगुंसि पुरुषम् जगत् शिवेन वचसात्त्वा गिरिशा वदामसि यथा नः सर्वमिज्जगदयष्मगम् सुमना असत् अध्यवोचदधिवक्ता प्रथमो अहि गिश्च सर्वाञ्जम्बयन् सर्वाश्च यातु धान्यः असौ यः साम्रो वरुण उत भद्रुः सुमङ्गलः ये छे मागम् रुद्रा अभितो दिक्षुश्चिता सह शशो वैशागुम्भेडीमहे असौ गोपा अदृशन्नदृशन्नुदहार्यः कुतैनम् विश्वाभूतानि सदुष्टो मृडयाति नमो नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करम् नमः प्रमुञ्च धन्वनत्वमुभयोराग्नियोर्ज्ञाम् याश्च ते हस्त इषवः पराका भगवो वप अवतत्य धनुत्वकम् सहस्राक्षशतेषु धे निशीर्यशल्यानाम् मुखा शिवो नः सुमना विशल्यो बाणवागुम् उत अनैषन्नस्त्येशव आभुरस्य निषङ्गतिः याते हेतिर्मीडुष्टम् हस्ते याते हेतुर्मीडुष्टमहस्ते बभूवते धनुः हे तयास्मान् विश्वतः स्वमयक्ष्मया परिभुज नमस्ते अस्वायुधायानातताय धृष्णवेः उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हे हेदिरस्मान् वृणक्तु विश्वतः अथो अस्मनि य इषु दिस्थवारे अस्मन्निदेहितम् वेरिगुड् There's only uh, two things I just, uh, uh, not a big deal. I just wanted to uh, note, uh, uh, tell you that. There is one, say, Yashcha Tehasta Isha Vaparada. Isha Vaparada, okay? You say Isha Vaparada. So that, that, that becomes F, F sound, okay? And that is one. It's not a big deal. And the other thing is, Danustva Gumsahas Raksh. That the ksha is a strong ksha, okay? Ka plus ksha. both are strong syllables so sahasrakshya deshute because when you say in fast lot of people say sahasrakshya deshude so it becomes very soft it is a hard consonant that's all you have to um, I, so a, uh, i mean it's just a very fine points because you, you are chanting well so i don't want to uh, not no, no, say no, no. This. okay you so, learn it right yeah that's what i'm saying the thing is these few minor points will uh, know that you learned it well that's all so okay anybody else want to try i can try pa okay om namo bhagavate rudray namaste rudra manya va uthot ishave namaha नमस्ते अस्तुधन्वने धन्वने बाहुभ्यामुत नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवा शरव्या यातवतया नो रुद्रमृडया या ते रुद्रशिवा तनुरगोरापापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभि चाकशीः शिवाम् गिरित्रताम् कुरु माहि गुंसिः पुरुषम् जगत् पुरुषम् जगदीर्घ सिः आ दीर्घ शिवाम् गिरित्रताम् कुरु माहि गुं सिः पुरुषम् जगत् शिवेन वचसात्वा गिरिशाचा गिरिशाचा वदामसि यथा नः सर्वमिज्जगदयक्ष्मगुम् सुमना असत् अद्य वो वचदितमोचिता अद्य वोचदधिवक्ता प्रथमो धव्योऽभिषक् अही गिश्च सर्वान् जम्पयन् सर्वाशयातु धान्यः असौ असौ यस्ताम्रो अरुण उत भभ्रुः ये चेमागुम् रुद्रा अभिथो दिक्षुश्रिता सहस्र सहस्रशो वैशागुम् हेड इमहे असौ यो वसर्पति नीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् उतैनम् विश्वाभूतानि स दृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय नीडुषे अतो ये अस्य सत्त्वानोऽहम् तेभ्यो करन् नमः प्रमुञ्चदन्वनस्त्वमुभयोरात्योज्याम् प्रमुञ्चदन्वनस्त्वमुभयोरात्मियोर्ज्याम् शते हस्त इषवः परात भगवो वप अवतत्य धनुस्त्वगुंसहस्राक्षश शतेषु मुखशिवो न शल्यानाम् मुखा शिवो नः सुमना भव निशीर्यः शल्याना मुखा शिवो नः सुमना भव विद्यम् दनुः कपर्दिनो विशल्यो बाणो वागुम् उत अनेक विशल्यो बाणवागुम् उत विज्यम् दनुः कपर्दिनो विशल्योभाणवागुम् उत अनेशन्नस्त्येशव आभुरस्य निषङ्घतिः या ते हेतिर्मी दुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया फरिभुज नमस्ते अस्त्वायुधाया न तताय धृष्णवे तथायुवास्ति नमस्ते अस्त्वायुध नमस्ते अस्त्वायुधायना तताय धृष्णवे नमस्ते अस्त्वायुधायानातताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः अथो य इषुदिष्टवा श्रुदिष्टवारे अस्मन्निदेहिहम् शम्भम् ोटिस् दण्ट् यु स्टार्ट् चाण्टिङ्ग् लोट् आफ् दि सौण्ड् गेट् अड्जस्टेड् ओके रैट् you don't have to uh, i think if i get it by heart maybe it will work people i'm still uh, reading a lot no that's fine no what i'm saying is when, even if you are reading it uh, the the highs and lows will it, it auto correction is already built in so uh, under okay. we try to screw up it will automatically come the low and high okay so uh, I and mean, uh, there could be few places where we have to pay extra attention but more or less the thing will uh, start correcting itself so that's why i said you know if you don't have to struggle too much to um, uh, the ups and downs. up and down it is automatically comes okay thank you good uh, who else want to try i can go next okay. om namo bhagavate rudraya नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्याम् उत ते नमः यात इषुः शिवतमा शिवम् बभूव ते दनुः शिवा शरव्यायातवत यानो रुद्रमृडय या ते रुद्रशिवा तनूरघोरापापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ता गिरिशन्ता वि चाकशीः यामिशुम् गिरिशन्त हस्ते बिभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु मा हि गुंसि पुरुषम् जगत् शिवेन वचसात्वा गिरिशा चा वदामसि यता नः सर्वमिज्जगदयक्ष्मगुंसुमना असत् अद्य वोचदधिवक्ता प्रथमो देव्योऽषक् देव्योऽषक् okay. oh, देव्यो. ओके oh, ओके okay. अद्य वोचदधिवक्ता प्रथमो दैव्योऽषक् अहीगिश्च सर्वा आम् जम्बयन् सर्वा आश्च यातु धान्यः असो यस्ताम्रो अरुण उत बव्रुः सुमङ्गलः ये चे मागुम् रुद्रा अभितो दिक्षुश्रिता सहस्रशो वैशागुम्भेडीमहे विलोहितः उतैनम् गोपा अदृशन् अदृशन्नुदहार्यः उतैनम् विश्वाभूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीदुषे ए अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन् नमः प्रमुञ्च धन्वनस्तुम प्रमुञ्चनस्त्वमुभयोराग्नियोर्ज्या याश्च ते हस्त इषवः पराता भगवोऽप अवतत्य धनुस्त्वगुंसहस्राक्षशतेषु दे निशीर्यशल्यानामुखा शिवो नः सुमना भव विद्यम् धनुः कपर्दिनो विशल्योभाणवागुम् उत अनेशन्नस्येषव आभुरस्य निषङ्गतिः या ते हेतिर्मीढुष्टमहस्ते बभूव ते धनुः तयास्मान् विश्वतस्म विश्वतस् भुज विश्वतस्त्वमयक्ष्मया परिभुज तया स्मान् विश्वतस्त्वमयक्ष्मया परिभुज नमस्ते अस्त्वायुधायानातताय धृष्णवे उभाभ्याम् पुतते नमो बाहुभ्याम् तव धन्वने मोस्ट् आफ़् दर्ड् विल् कम् डौन् इर् for example ich so that so mayak smaya paribhuj so you can take a break if you they if, if you want so so end of each word you have a short break if you want anybody else want to try okay so let's just start with the next uh, paragraph य विश्वेश्वराय विश्वेश्वरायवाय महादेवायदेवाय त्रयम्बकाय त्रयम्बकाय त्रयम्बकाय त्रिपुरान्तकाय त्रिपुरान्तकाय य त्रिकालाग्निकालाय इति बुक् अस्त्रिकाग्निकालाय राकालाय त्रिकालाग्निकालाय त्रिकालाग्निकालाय कालाग्निरुद्राय कालाग्निरुद्राय रुद्राय नीलकण्ठायुञ्जयाय मृत्युञ्जयाय मृत्युञ्जयाय सर्वेश्वराय राय सदा शिवाय सदा शिवाय सदा शिवाय श्रीमन्महादेवाय नमः Because most of this we have heard before, so it's not like the words are pretty uh, all familiar श्रीमन् महादेव नाट् लैक् दर्ड् प्रति फेम त्रिपुरान्धकाय कलाग्नृद्रा नीलकण्ठय मृत्युञ्जय सर्विङ्ग्स् आर् वर्ड् जस्ट् पुट् गेट् टुगेदर् इस् दि ओन्ल डिफिकल्ट् पार्ट् Right. shall we try uh, um, the whole uh, sentence once yeah okay i'll say it once after that you guys can repeat twice shambhave mm -hmm. namaha namaste astu bhagavan visheshwaraya mahadevaya tryambakaya tripurandakaya trikala agnikalay nikalagni rudray नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः शम्भवे नमः नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय स्वयंवकाय त्रिपुरान्तकाय त्रिकालानिकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय य नमः शम्भवे नमः नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्भकाय त्रिपुरान्धकाय त्रिकालानिकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदा शिवाय श्रीमन्महादेवाय नमः इस् दट् ओके फ़ार् एबडि दिस् इस्थिङ्ग् वि नो ऐ yes yes so then uh, okay. okay let's uh, try the next paragraph so uh, then we can practice this and the next ones in the next class okay <speaking in foreign language> namo hiranya bahave namo hiranya bahave namo hiranya bahave <speaking in foreign language> sei na he disancha नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमः रण्यहवे सेनान्ये दिशाञ्च पतये नमः पतये ृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमः पशूनाम् पतये नमः नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् ी मते पतीनां पतये नमः पतये नमः नमः त्विषि मते पतीनाम् पतये नमः महाप्रणथा नमः पतये नमः अल्ट्रा Do the sentence till whatever we learned up to this point. Okay? So, let's try. Uh, I'll डु द सेण्टेन्स्टिल् वाट् अवर् वि नमो हिरण्यबाहवे सेनान्ये दिशाञ्च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः द्विषीमथे पथीनां पतये नमः नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षे वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नम सस्मिञ्जराय द्विषीमते पतये नमः नमो हिरण्यबाहवे सेनान्ये दिशाम् च पतये नमो नमो वृक्षेभ्यो हरिकेषेभ्य पशूनाम् पतये नमो नम सस्पिञ्जरायत्विषीमते पतीनाम् पतये नमः Uh, two things that i noticed was that here is also hari keche vyaph pashunaam this visarga followed by pakara becomes a f sound okay hari keche vyaph pashunaam patahi okay and then there is a namaha okay. followed by a sakara namasaspinjaray becomes namasaspinjara double sakara namasaspinjaray okay. okay so uh, when the sandhi comes just pay attention to these things because when you read it If the way it's written and the way you pronounce it will be a slight difference because you'll always... Uh, and English is called linking. Here will be Sandhi. Okay? So uh, just uh, pay attention because... Hari Keche Bhyavpa Shunam Patahi Namo Namaha Okay? Okay. So that, uh, just pay attention to that. That's all. Namo Bablu Shaya य नमोषाय पतये नमः विव्यादिनेनाम् पतये नमः पतये नमः let's uh, try um, the the previous sentence and uh, up to this sentence okay i'll try this uh, sentence once we finished the previous sentence let's chant together vachh sambhave namaha and then up to this point uh, i'll say once you guys can repeat twice okay so let's uh, do together the sambhave namaha okay okay 1 2 3 sambhave namaha, namaha. नमस्ते तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकालाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः was everybody okay with that yeah okay so then i'll uh, say once whatever we learned so far and you guys can repeat after that twice okay नमो हिरण्यबाहवे सेनान्ये दिशाम् च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्पिञ्जराय द्विषी मदे पथीनाम् पतये नमो नमो बभ्लुषाय विव्याधिनेन्नानाम् पतये नमः नमो हिरण्यभाहवेशे नान्ये दिशाम् च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्पिञ्जराय द्विषीमते पतीनाम् पतये नमो, नम नमो, नम नमो नमो बभ्लुषाय विव्यादिनेनानाम् पतये नमः नमो हिरण्यबाहवे सेनान्ये दिशाम् च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्मिञ्जराय द्विषीमते पतीनाम् पतये नमो नमो नमः इञकार ओके टो डोन्ट् से ब्रेक् आफ़्ट दिशां च सो कण्टिन्यूस्लि लिङ्क् इशां च पतये नमः ओके नो डोण्ट् से दिशां च नमः डोण्ट् ब्रेक् आफ़् दिशाम् ीचर् वन्स् फ्रोम्भवे नमः अप् टु दिस् पाण्ट् ओके रेडि वन् टु त्री शम्भवे भगवन विश्वेश्वराय, महादेवाय त्र्यम्बकाय त्रिपुरान्दकाय त्रिकालाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशाञ्च पदये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्पिञ्जराय द्विषीमदे पदये पतये नमो नमो बभृशाय विभ्याधिनेन्नानाम् पतये नमः So can somebody try it let's try this and uh, see whether everybody, everybody okay with uh, this so far okay al gopa okay shambhave namaha namaste astu bhagavan visweshwaraya mahadeva yatrayambhakaya त्रिपुरांतकाय त्रिकालाग्नि त्रिपुरान्तकाय त्रिकालानिकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे से नान्ये दिशम् च नमो दिशाञ्च पतये नम नमो हिरण्यबाहवे सेनान्ये दिशाञ्च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्मिञ्जराय द्विषीमते पतीनाम् पतये नमो नमो बब्लुषाय विव्यादिनेना पतये नमः पद्युषाय विव्यानेन्नाम् पतये नमः इदरं चलिमा नमो हिरण्यभाहवे सेनान्ये दिशानां दिशांश पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्पिञ्जराय त्विषी मते पतीनां पतये नमो नमो बब्लुषाय विव्यादिनिन्नानां पतये नमः शम्भवे नमः नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकालानिकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयायुञ्जयाय मृत्युञ्जयाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः न, नमो बाहवे ते सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो व्र, हरि हरिकेशे यः पशूनां पतये नमो नमः यते पतीनां पतये पतीनां पतये नमो नमो नमो बब्लुशाय नाम, न, ने वि अन्नानां पते नमः विव्याधिने विद्यादिने दिव्याधिने दिव्याधिने दिव्याधिने दिव्यादिने दिने um then how to split it vyādhinē vyādhinē annānām patē namaha but when you say it together oh. it becomes vyādhinē annānām that 'e' will go it becomes yeah uh, that uh, will be uh, not pronounced so vyādhinē annānām that 'ē' will become little longer and then you just say vyādhinē annānām so that uh, small uh, break there is with, with you don't say vivyadine annanam okay so that uh, okay. It just says that r was there but it is not uh, written or pronounced as uh, as an r uh, but it just like a, it's uh, uh, just glided over like you know vivyadine annana vivyadine uh, annanam because you elongate that a that r uh, gets uh, swallowed up there Vibhyādine nā nāṃ pataye nāmā. <laughs> vidya dine, dine nā nāṃ pataye nāmo. Nāmā. <laughs> <laughs> Is that correct? Nāmā. Uh, <laughs> <Yeah. laughs> uh, then the, because of Sandhi, Nāmā will become Nāmā. Okay, so that we can do later. But Nāmā and Nāmā, you don't have to worry that much right now. <laughs> okay. Bab Bablusāya vidya dine nā nā. नाम नाम शम्भवे नमः नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकालानिकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशाञ्च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सत्पिञ्जराय द्विषिमते पतये नमो नमो विव्याधिने विव्याधिनेनाम् पतये नमः I'll do it next week, Hari. Okay, no problem. Anybody else want to try? Okay, so uh, anyway, that, uh, the recording I sent earlier with the, the Chale Karya Brothers is our uh, golden reference. You can listen to that and then uh, uh, match it according to that. Uh, and then we probably continue uh, the next class. guys no buddy must try so uh, that you can listen to that and then wherever they we split up we can just go with the split up and see whether it helps you to change according to what they do so let us do three lokaha samasthah and we can stop for today okay